नारदपुराणम् पूर्वार्थम् अध्यायम् ट्वेन्टि नैन् सनक उवाच तिथीनां निर्णयं वक्ष्ये प्रायश्चित्तविधिं तथा शृणुष्व तन्मुनिश्रेष्ठकर्मसिद्धिर्यतो भवेद श्रौदं स्मार्तं ब्रदं दानम् यच्चान्यत्कर्म वैदिकम् अनिर्नीदासु तिथिषु न किञ्चिद्भलदि द्विज एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्दशी अमावास्या तृतीया च ह्युपवासव्रतादिषु परविद्धा प्रशस्तास्युर्नग्राह्याः पूर्वसंयुताः नागविद्धादु या षष्ठी शिवविद्धादु सप्तमी दशम्येकादशी विद्धा नोपोष्यास्युः कदाचन दृश्यं च पौर्णमासीं च सप्तमीं पितृवासरं पूर्वविद्धं प्रकुर्वाणो नरकायोपपद्यदे कृष्णपक्षे पूर्वविद्धां सप्तमीं चतुर्दशीं प्रशस्तां केजिदाहुश्च तृतीयां नवमीं तथा व्रतादीनां तु सर्वेषां शुक्लपक्षो विशिष्यते अपराह्णाश्च पूर्वोक्णं ग्राह्यं श्रेष्ठतरं यदः असंभवे व्रतादीनां यदि पौर्वाह्णिकीतिधिः मुहूर्तद्वितयं ग्राह्यं भगवत्युदिते रवौ प्रदोषव्यापिनि ग्राह्यातिथिर्नक्रव्रदे सदा उपोषितव्यं नक्षत्रं येनास्तं यादिभास्करः तिथि नक्षत्रसंयोगविहितव्रतकर्मणि प्रदोषव्यापिनि ग्राह्या त्वन्यथा निष्फलम् भवेद अर्धरात्रा दधो यादुनक्षत्रव्यापिनीतिथिः सैव ग्राह्या मुनिश्रेष्ठनक्षत्रविहितव्रते यद्यर्थरात्रखगयोर्व्याप्तं नक्षत्रं तु निर्णये नक्षत्रं तु दिनद्वये तत्पुण्यं तिथिसंयुक्तं नक्षत्रं ग्राह्यमुच्यते अर्धरात्रद्वये स्यादां नक्षत्रं च तिथिर्यदि क्षये पूर्वा प्रशस्ता स्यादृधौ कार्यात् तद्धोत्तरा अर्धरात्रद्वयव्याप्तातिथिर्नक्षत्रसंयुता हासवृद्धिविशून्या चेत् ग्राह्या पूर्वा तथा परा ज्येष्ठा सम्मिश्रितं मूलं रोहिणी वह्निस्संयुता मैत्रेण संयुता ज्येष्ठा तदस्युस्थितयपुण्यकर्मानुष्ठानदो दिवा रात्रिव्रतेषु सर्वेषु रात्रियोगो विशिष्यते तिधिर्नक्षत्रयोगेन या पुण्या परिकीर्तिता तस्यां तु तद्वतं कार्यं सैव कार्याविचक्षणैः उदयव्यापिनि ग्राह्य श्रवणद्वादशी व्रते सुरेन्दुग्रहणे यावत् तावत् ग्राह्याजपादिषु सङ्क्रान्तिषु तु सर्वासु पुण्यकालो निगद्यते स्नानदानजपादीनां कुर्वतामक्षयफलं तत्र कर्कटको ज्ञेयो दक्षिणायनसङ्क्रमः पूर्वतो कटिकास्त्रिंशत् पुण्यकालं विदुर्बुधाः वृषभे वृश्चिकेंहे कुंभे तथा च पूर्व मुहूर्तास्तु ग्राह्याधिषु तुलायां मेषेज पूर्व परतया दश्व कटिका दत्सै क्षयता वहाँ कन्या मिथुने धनुषिच्विज कडिका षोडशज्ञेया परदपुण्यदायिकाः माकरं सङ्ग्रमं प्राहुरुत्तरायणसंज्ञकं परास्त्रिंशश्च कडिकां चत्वारिं शपूवद आदित्य शीतकिरणौ ग्राह्यावस्तङ्गतौ यदि स्नात्वा भुञ्जितविप्रेन्द्र परेद्युशुद्धमण्डलं सिनी वाली नष्ट शी नष्ट्र स्मृता, अमावासया दिधा प्रोक्ता विद्द्भिधर्मा लिपु शीज्या्राद्धकर्मण क्रीथा शूद्रैर वनग्रिकथा द्वय अपराह्णद्वयव्यापिन्यमावास्यातिथिर्यदि क्षये पूर्वादुकर्तव्या वृद्धौ कार्या तथोत्तरा अमावास्याप्रदीता चेन्मध्याह्णात्परतो यदि पूदविद्धेदि विख्यादास्रद्भिः शास्त्रविशारदैः अंतक्षयपक्षे पेद्युर्ना परा त्र ग्राह्या शिनीवा या न्यातिथि अर्वाची न क्षे साव्या तथा सिनीवाली परा ग्रह्या श्राद्धकर्मी अत्यन्ततिथिवृद्धौ दु भोधविद्धां परित्यजेद ग्राह्या स्याद पराक्ष्णस्ता कुः पैतृककर्मणि यद्धार्वाची न वृद्धौ तु सं त्याज्या भूद संयुताः परेद्योर्विबुधश्रेष्ठै मध्याह्नद्विधये व्याप्ता श्यमावास्या तेर्यदि तत्रेच्छया च सङ्ग्राह्या पूर्वाधपराधवा अन्वा धानं प्रवक्ष्यामि सन्तः सम्पूर्णवर्णनि प्रतिपद्दिवसे कुर्याद्याकं च मुनिसत्तमपर्वणो यश्चतुर्धांश्च अद्याप्रतिपदस्त्रयः यगकालसविज्ञेयप्रादरुक्रो मनीषिभिः मध्याह्नद्विधये स्यादा ममावास्या च पूर्णिमा परे विप्रेन्द्र सद्यः कालो विधीयते पूर्वद्वये परेद्युः स्यात् शङ्कवात् परतो मनीषिभिः सद्यकाल परेद्युः स्यात् ज्ञेयमेवं तिधिक्षये सर्वैरेकादशी ग्राह्या दशमी परिवर्जिता दशमी संयुधा कन्दिपुण्यं जन्मत्रयार्जितम् एकादशी कलामात्रा द्वादश्यां तु प्रदीयते द्वादशी च त्रयोदश्यामस्ति चेत् सा परा स्मृता च प्रदीयते त्रयोदशी च रात्र्यान्धे तत्र वक्ष्यामि निर्णयम् पूर्वा गृहस्थैः सा कार्या यदि यदिभिस्तथा गृहस्था सिद्धिमिच्छन्ति यदो मोक्षम यदीश्वराः द्वादश्यां तु वा यदि लभ्य दबारणां तदानीं दशमी विधाप्युपोष्यैकादशी तिथिः शुल्के वा यदि वा कृष्णे भवेदेकादशी द्वयं गृहस्थानां तु पूर्वोक्ता यदीनामुत्तरा स्मृता द्वादश्यां विद्यते किञ्चिद्दशमी संयुधा यदि दिनक्षये द्वितीयैव सर्वेषां परिकीर्तितां विधाप्येपादशी ग्राह्यात् परदो द्वादशी न चेद् विद्याभिनिषिद्धैव परतो द्वादशी यदि एकादशी द्वादशी च रात्रखिशेषत्रयोदशी त्रयोदशी द्वादशी पुण्यं त्रयोदश्यां तु पारणे एकादशी कला मात्रा विद्यते द्वादशी दिने द्वादशी च त्रयोदश्यां नास्ति वा विद्यते धवा विद्वा एकादशी तत्र पूर्वा स्यात् गृहणां तदा यदिभिश्चोत्तराग्राह्या शवीराभिस्तथैव च सम्पूर्णैकादशी शुद्धा द्वादश्यां नास्ति किञ्चन द्वादशी च त्रयो दशयामस्ति तत्र कथं भवेद् पूर्वा गृहस्थै कार्यात्र यदि तिधिः उपोष्यैव द्वितीयेदि केचिदाहुश्च भक्रिदः एकादशी यदा विद्धा द्वादश्यां न प्रदीयते द्वादशी च त्रयोदश्यामस्ति तत्रैव च परे उपोष्या द्वादशी शुद्धा सर्वैरेव न संशयः केजिदाहुश्च पूर्वान्तु तन्मदं न समं च संक्रान्तौ रविवारे च पादग्रहणयोस्तद्धा पारणचोपवासं च न कुर्यात्पुत्रवान् गृहीम् आर्केहिनीपर्वरारौ च भुक्त्वा चान्द्रायणं चरेद आदित्यग्रहणे प्राप्ते पूर्वयामत्र ये तथा नाद्याद्वौ यदि भुञ्जीदुर सुरापेन समो भवेद् अन्वाधानेष्टिमध्ये दुर्ग्रहणे चन्द्रसूर्ययोः प्रायश्चितं मुनिश्रेष्टकर्तव्यं तत्र याज्ञिकैः परागे जुहुया दशमे सोम इत्यर्च इ आप्यायस्वरुचा चैव सोमपास्त इति द्विजा सूर्योपरागे जुहूया दुदुत्यं जाधवे असत्ये नो चैवत्रयो चैव त्रयो मन्त्रा उदाहृदाः एवं तिथिं विनिश्चित्य स्मृतिमार्गेण यः करोति व्रतादीनि तस्य स्यादक्षयं धर्मो धर्मैस्तुष्यति केशवः तस्माद्धर्मपरायान्ति तद्विष्णो परमं पदं धर्मान्ये कर्तुमिच्छन्ति ते वै कृष्णस्वरूपिणः तस्मात्तांस्तु भव्याधिकदाचिन्न इव बाधते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे तिथ्यादिनिर्णयो नाम एकोनत्रिंशोऽध्यायः ओम्